अधैकादशः सर्गः अवधूयच ताम् बुद्धिम् बभूवावस्थितस्तदा जगामचापराम् चिन्ताम् सीताम् प्रतिमहा कपिः न रामेण वियुक्ता सा भामिनी न ना भोक्तुम् नाप्यलङ्कर्तुम् न ना पानमुपसेवितुम् नान्यम् नरमुपस्थातुम् सुराणामपि चेश्वरम् न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि अन्येयमिति निश्चित्य भूयस्तत्र च चारसः पानभूमौ हरिः श्रेष्ठः सीता सन्दर्शनोत्सुकः क्रीडितेनापराः क्लान्ता गीतेन च तथापराः नृत्येन चापराः क्लान्ताः पानविप्रहतास्तथा मुरजेषु मृदङ्गेषु चेलिकासु ततास्तरणमुखेषु संविष्टाश्च परा स्त्रियः सहस्रेण भूषितेन विभूषणैः रूपसंलापशीलेन युक्तगीतार्थभाषिणा देशकालाभियुक्तेन युक्तवाक्याभिधायिना रताधिकेन संयुक्ताम् ददर्श अन्यत्रापि वरस्त्रीणाम् रूपसंलापशायिनाम् सहस्रम् युवतीनाम् तु प्रसुप्तम् स ददर्शः देशकालाभियुक्तम् तु युक्तवाक्याभिधायितत् रता विरतसंसुप्तम् ददर्श हरियूथपः तासाम् मध्ये महाबाहुः शुशुभे राक्षसेश्वरः गोष्ठे महति मुक्त्यानाम् गवाम् मध्ये यथा वृषः स राक्षसेन्द्रः े परीर्णो महाद्विपुरपेता पान भूमि महात्म ददर्शक शार्दूलस्त रक्ष पतेर्गृ मृगा महिषाण्च बराहाशह त्रनी मां पान भूमर्शस रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान् न दर्शकपिशार्दूलो मयूरान् कुक्कुटांस्तथा वराहवाध्रीणसकान् शल्यान् शल्यान्मृगमयूरांश्च हनुमानन् ववैक्षत कृकलान् विविधांश्चागा्छशकानर्ध भक्षितान् महिषानेकशल कृत निष्ठिता लेच्चा वचा पेया भोज्याुच्चावचा चालवणोत्तर्धराग खाडवै महानूपुर केयूरपब्दर्महान पान भाजन विक्षिफल्च विविधरपी कृतपुष्पोपहाराभूरधिकाम् पुष्यति श्रियम् तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनाशनैः पानभूमिर्विना वह्निम् प्रदीप्तेवोपलक्ष्यते बहुप्रकारैर्विविधैर्वर संस्कार संस्कृतैः मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथग् दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि शर्करा सव माध्वीकाः पुष्पा सव फलासवाः वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक् सन्तता शुशुभे भूमिर्माल्यैश्च बहु संस्थितैः जांबूनदमय करकरभसृताजु चुंभु जामेश पानश्रेष्ठा तथा भूमि कपिस्तर्शसह सो पश्यकुंभा शीधोरमणिम चाने चा पूर्णान भाजना महाकप क्वचिदर्धवशा क्वचि पीताशेष क्वचिन्नैव प्रपीतानि पानानि सददर्शः क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः क्वचिदर्धावशेषाणि पश्यन् वै विचचारः शयनान्यत्र नारीणाम् शून्यानि बहुधा पुनः परस्परम् समाश्लिष्य काश्चित् सुप्तावराङ्गनाः काचिच्च उपगम्या बला सुप्ता निद्राबलपराजिता तासामुच्छ्वासवातेन वस्त्रम् माल्यम् च गात्रजम् नात्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दमिवानिलम् चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च विविधस्य च माल्यस्य पुष्पस्य विविधस्य च बहुधा मारुतस्तस्य गन्धम् स्नानाम् चन्दनानाम् च धूपानाम् चैव मूर्च्छितः प्रमवौ सुरभिर्गन्धोऽभिमाने पुष्पके तदा श्यामावदातास्तत्रान्याः काश्चित्कृष्णावराङ्गनाः काश्चित् काञ्चन वर्णाम् यः प्रमदाराक्षसालये तासाम् निद्रावशत्वाच्च मदनेन विमूर्च्छितम् पद्मिनीनाम् प्रसुप्तानाम् रूपमासीद्यथैव हि एवम् सर्वमशेषेण रावणान्तः पुरम् ददर्श स महाते जान ददर्श च जानकी निरीक्षमाणश्च ततस्ता स्त्रियः स महाकपिः शङ्कितः परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् इदम् खलु ममात्यर्थम् धर्मलोपम् करिष्यति न मे परदाराणाम् दृष्टिर्विषयवर्तिनी अयम् चात्र मया दृष्टः परदारपरिग्रहः तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी कामम् दृष्टा मया न तु मे मनसा किञ्चिद्वैकृत्यमुपपद्यते मनो हि हेतुः सर्वेषामिन्द्रियाणाम् प्रवर्तने शुभाशुभास्वस्थासु तच्च मे सुव्यवस्थितम् नान्यत्र हि मया शक्या वै देही स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे यस्य सत्त्वस्य या योनिस्तस्याम् तत्परिमार्गते न शक्यम् प्रमदा नष्टा मृगीषु परिमार्गितुम् तदिदम् मार्गितम् तावच्छुद्धेन मनसा मया रावणान्तः पुरम् सर्वम् दृश्यते न च जानकी देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् अवेक्षमाणो हनुमान् नैवापश्यत जानकी तामपश्यन् कपिस्तत्र पश्यंश्चान्यावरस्त्रियः अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे स भूयः सर्वतः श्रीमान्मारुतिर्यत्नमाश्रितः आपानभूमिमुत्सृज्य ताम् विचेतुम् प्रचक्रमे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशसर्गः